उदीन्द्रष्टा गन्वच्छास्मत्सूरिभिरभित्वे सयोः आवृत्रहेन्द्रः सर्गनिप्रास्तुभिष्टमोनान्न उदीम् मदयोस्व योगाः शिशुन्नगावस्त ऋणम् रिहन्ति यो नपत्नी सुरभिष्टमन्धराम् न सन्तस्मद्वशोभनयोनरथा सो सोमित्रयुजो न देवाः ऋणुजते राम् महिनाचिगित्रे प्रयुञ्जते प्रयुजस्ते सु श्वमेदीनम् वृषायम् दसेनाः प्रो अश्विनाभवासे कृणध्वम् प्रभूषणम् सुतावसो हि सन्ति अद्वैतो विष्णुर्वातर्भुक्षाच्छा सुम्नायान् इयम् दावो अस्मे लीलीदीर्यजत्राभिप्राणी दि च स नीचभूजाः देवे रुजदेव सूर्यर्विद्यावेषम् वृजनम् जीवरानम् पितृन्वस्तो महो धर्मानम् दवीषि यस्य त्रितोम् योजसा वृत्रम् विपर्वमर्दयात् स्वादोगितो मधोपितो भयम् त्वाब्रमहे अस्माकमपिता भाव नः पितवाचा न शिवशिवाभिरुचिभिः मजोभुरद्विषेऽण्यः सखाः सुषेवो अद्वयाः भवत्येऽपि तोरसा रजांसिष्ठीताः दिविवाताजिवश्रुताः भवत्येऽपितो ददातस्तव स्वातिष्ठतेऽपि स्वात्मानो रसानाम् तु विग्रीवाजिवेरते ेऽपि महानाहम् देवानाम् मनोमाहिताम् अकारि चारूकेतुनाथपाहिमवासावधीत् यतो पीतो अजागन् विमस्वपर्वादानाम् अत्रा जन्मोऽवधोऽपितोरम् भक्षाजगम्याः यथवा मोषाधीनाम् परिम् समाहरिशामहे वाता पेऽपि मयुद्भाव जो यत्ते सोमघवाशिरोयवा शिरो भजामहे मातापेऽपि वयुद्भावा रम्भवो औषधे भवथिः मातापेऽपि वयुद्भावा अन्द्वाभयम् पीतो वचोभिर्गावो न हव्यासूषूदिमा शूदिमा धमादमस्मभ्यम् त्वा स धमादम् तमेधो अर्जराजसि देवो देवैः सहस्रजित् दूतो हव्याकविर्वाः तनू नमाधुकञ्जेव यज्ञः समज्जने तत्सहस्रनीर्षाः आजुह्मानो न यीर्यो देवान्मावक्षि यज्ञियान् अग्ने सहस्रदासि प्राचीनम् बहिरो सहस्रवीरमस्तृणन् यत्रादित्या विराजा वीराट् सम्राट् बिभ्वेर्प्रभ्वीर्बह्वीश्च भुजासीश्चयाः दुरोभिक्षरन् सुरुग्मेः सुपे सुताधिश्रिया विराजतः पुरा सा वेहसी दताम् सुपाच चाहूता रादेव्या कवि यज्ञन्ना यक्षतामिमम् भारतीरे सरस्वतिजापः सर्वा गुरब्रुवे तानश्चोदयतश्रियेष्टा रूपाभिः प्रभुः पशून्विश्वान् समानते एषान्नस्फादिमाया च देवेभ्यसृजा अग्निर्हव्यानि शिश्वतत् पुरोगा अग्निर्देवानाङ्गायत्रेण समज्जते स्वाहा कृतेषु रोचते अग्ने न च सुपथा राजे अस्मज्जोरा ने नो भूयिष्ठाम् ते न मम भुक्तिम् विधेमत्वम् वारजानं अस्मान् स्वस्ति हिरसि दुर्गाणि विश्वा ऊश्च वृच्छीव हुरा न उर्वीभवा दोकागतनजायसंयोः मस्मभ्युजोऽध्यमेत्रा अभ्यमन्तदृष्टीः पुनरस्मभ्यम् सुविदाय देवक्षाम् विश्वेभिरमुदे वायुलो अग्ने वायुभिरजश्रीरुतप्रिये सुनासु सुखवान् मारेभयम् जरिदारम् जविष्ठनूनम् वि जन्मा परम् स हस्वः ो अग्ने सृजौ अघायाः विश्ववेः ऋपवेः दुच्छुना जै मा ध ते दस ते मा दे नो मारीष ते दहसा वन्परादाः विहत्वा वामृतजातयम् सद्गृणानो अग्ने तन्वे विश्वादिक्षो रुदवा निक्षोराभिकृतामसि एव विष्पले त्वन्ताग्नुभजान्विद्वान्यप्रित्वे मनुषो यत्र अभोजामनिवचनान्यस्मिन् मानस्य दूनः सहसाने अग्नौ वयम् सहस्रमृषेभिः सरेव विद्यापेणम् वृजनम् प्राधान्यः सुजो यस्य देवाः समर्ताः उपवाचोरयो देवय रामसर्जी मृगस्वधिः सह्यञ्जोरांसिमा उपस्तु बुद्ध्यादिम् जम् दत्स विदेव प्रभाहु रस्य कृत्वास्ति मृगो न भीमो रक्षसस्तु विष्मान् अस्य श्लोको दिवीरदेव्यामत्योनयम् सद्यक्षभृद्विचेताः मृगानाम्न ना हेतयोजन्ति देवा बृहस्ततेरही मायाम् अभिद्यून् ए त्वा देवोऽसृगम् मन्यमाना पाप भद्रमुपजीवन्ति भद्राः ये अनुददा ददाति भामम् बृहस्पते च सगिप्याप्रतुः सुयव दो न पन्था दुर्नियन्द्वः परिप्रीदो न मित्रः अनर्वाणो अभिजे च क्ष तेनोऽपि कृतादोर्णवन्दो अस्तु स विद्वा उभयम् दष्टे अन्तरबृहस्पतिस्तरापश्च गृध्रा एव मनस्तु विजातस्तु विष्मान् बृहस्पतिवृषबोधादेवः स नस्तुतो वीरवद्धातुगोपद्विद्यामेवम् वृजलम् जीरला कलङ्को न कम् कतोऽधोऽसीरकम् गतः स्वामिदिग्लषीयिन्या अदृष्टालिप्सता अदृष्टान्वम् चत्यथो हन्ति पराजति अथो अवघ्नति हन्त्यथोऽपि नष्टिविंशति सदा सत्कुसारासो दर्भासस्थैर्याहुता मोम् च अदृष्टा वैरिणाः सर्वे सा कन्यालिप्सत निगावो गोष्ठे सृकासो अवीक्षत निकेतभोजना नान्या अदृष्टा अलित्सर एत बुद्ध्ये प्रत्यदृश्रम् प्रदोषम् तस्कारादिव अदृष्टा विश्वादृष्टाः प्रतिबुद्धा भूगण यौर्वः पिलापृथिवी माता सोपो भ्रातादिश्वसा अदृष्टा विश्वादृष्टास्तिष्ठा देवजाता सुखम् ये अंस्यायैरङ्ग्याः सूचीकाजे प्रागम् कदा अदृष्टाक्यञ्जरे भवः सर्वे सागन्निजस्यतपुनस्तात् सूर्यायति विश्वदृष्टो दृष्टः अदृष्टान् सर्वा जम्भयन् सर्वास्य यातु धान्याः न् आदित्यः पर्वतेभ्यो विश्वदृष्टो दृष्टः सूर्ये विषवास जामिदृशिंसुरावतो गृहे सोऽ अस्य योजनम् अनिष्ठा मधुत्ता मधुरा च कारा यत्तिका च कुन्तिका सखा च घासते विषाम् सोऽन् नम रा नो भयं वा रामाले अस्य योजनम् हरिष्ठा मधुत्वा मधुरा जगारा ऋषसप्त विष्णुलिङ्गका विषस्य पुष्पामक्षन्सिन् नम रम् जिनो भयं वा रामाले अस्य योजनम् हरिष्ठा मधुत्वा मधुरा जगारवानाम् न पतीनाम् सर्वाः सामग्रभन्ना माले अस्य योजानम् हरिष्ठा मधुत्तामधुरा चकारा तस्सप्तमा योजः सप्त सुधारो अग्रुवाः तास्य विषम्बिजभ्रिकम् कुम्भिनीरिव यज्जगत्पुरुषम् भगस्तकम्भीनद्यना ततो विषम्प्रवाहापराः जीर्णो संवदाः पुरुषम्भस्तद ब्रवी गिरे प्रवर्तमानकः वृश्चिकस्य रथम् विषम भिष्या रथम् वृश्चिगतेषाम् परिता भामि सर्वदा घनेन हन्निवृश्चिकमहिम् दण्डेनागादम् आदित्यरथवेगेन विष्णुबाहुबलेन च गरुडभक्षनिपादेन भूनम् गच्छ महायचाः गरुडस्य यानुमात्रेण त्रयो लोका प्रगम्बीताः प्रगम्पिता मयि सर्वाः स चैरावनगाना गरुम् नष्टजम् रार्कम् गोदिनम् न प्रगाशदे देवता भज भीताश्च मारुदो न प्रभाजति मारुदो नमः भो सत्प ते दूरम् गच्छ मायसाः जनमे जयस्य ज्ञामे आस्तीकवचनम् स्मर आस्तीकवचनम् श्रुत्वा यः सर्पो न निवर्तते शतधा भिद्यते मूर्ध्सवृक्षफलम् अगस्त्यो माधवस्यैव मुचुकुन्दो महामुनिः अपिलो मुनिकिते सुखदायीनः नर्मदायै नर्मदा। नमः प्रादर्नर्मदायै नमो नेशे नमोऽस्तु नर्मदे तुभ्यम् द्राहि माम् सर्पदः यो जरत्तारुणो जातो जरत्कन्या महाजसा जा तस्य सर्पापभद्रम् ते दूरम् गच्छ महाजसा विश्वेश्वराय नमः ग्नेपमासु सुक्षणिभ्यस्तमस्म नस्परि त्वम् वनेभ्यस्तमो हृधेभ्यस्तम् नृणान् नृपतेजायसे सुजीः तपग्ने होत्रम् तव गोत्रमृत्यजम् तव त्वमग्नन्द्रो वृषभः सदामासीत्त्वम् विष्णोरुगायोजिविद्ब्रह्मस्पते त्वम् विधत्तस्य त्वमग्ने राजापरो नो धृतम् रातस्त्वम् मित्रो भवसि दस्मयीड्याः त्वमर्यमासत्त्वर्यस्य सम्भृतवामिदधे देवभाजयोः त्वमग्ने त्वष्टा विधदे सुवेर्यन्तभग्नाभोः मित्रमहस्य मारुषेश्व स्वन्तम् ददाम् शर्धो असि कुरो वसुः त्वमग्ने रुद्रो असूरो महो दिवस्त्वम् शर्धो मारुतम् रक्षयीषे रुणैर्या विना त्वम् भगवान् नृपदेवस्वी त्वम् पायद्रेजस्ते स्वाग्नेतमा विश्वतिम् विशस्ताम् राजानम् विदत्रा व्यञ्जते निरीकपत्यसे त्वम् सहस्राणि त्वामग्ने पितर मृष्टिभिर्नहस्त्वाम् भ्रात्राय संयाम् पुत्रो भवसि यस्ते धत्वम् सखा सेव त्वा स्याधृषाः त्वमग्निर्भरागेणस्यास्त्वम् वाजस्य क्षुमतो राजयीरे जीद स्यनु दक्षिदावने त्वम् विषरसि यज्ञमातनीः त्वमग्ने अधिर्देवदासुषे त्वम् होत्रा भारतीवर्धते गिरात्वमिलाः सदहि माधिलक्षासे त्वम् रत्रा वासुपते सरस्वती त्वमग्ने सुभृतवोत्तमम् वयस्तव स्फागेवर्णाः सदृशिश्रियाः त्वं वाजः प्रतरणो बृहन् सित्तम् रजुर्भुलो विश्वतस्पृश त्वामग्रादित्यास आस्याम् जिह्वाम् यश्चक्रिरे कवे त्वाम्रादिषाचो अध्वरेषु षष्ठि त्वे देवाहविरदन्त्याहूतम् त्वे अग्ने विश्वे अमृतासो अद्रुह आस देवाहविरदन्त्याहूतम् ृत्ताः सस्वतन्दासुतिम्बम् गर्भोऽभिरुधाम् जग्भे शुचिः स्वतन्दान् सन् प्रतीचासि मद्मनाग्ने एषुजा सप्त देवरिच्यसे वृक्षो यत्रामहिना विदेभुवदनुद्यावा पृथिवीरोदासी बुभे ये स्तोत्रभ्यो गो अग्रामस्वाेषु समग्ने रातिमुपसृजन्ति सूरजाः प्रहिरे शिवस्या बृहद्वा देव विदधेः सुवीराः यज्ञेन वर्धत जातवे ददमग्निम् जय ज्वम् अभिषातना गिरा समिधानम् स्वप्रजसम् स्वर्णरम् युक्षम् होदारम् वृजनेषु धूषधम् अभित्वा नक्ती ुगाक्षपोभासियताः तन् देवा बुद्धेरम् दधामि भवेद्यम् शुक्रो याज्ञम् मेत्रान्नाक्षिजुष प्रशंस्य मोक्षमाहानम् रज सिस्व आदमेः चन्द्रमेव सुरजम् हार आदधु अनो, तो तस्याः पतनम् चित्तयम्भिः पाचो न पायुञ्जना गिरा श्री श्रीप्रोवृधानोर्नस्त्रिभिश्चिद्रोदी अनु स नोरे वत्सभिधानस्तये सुन्दधस्वास्मासु दीरिः नः कणष्टोदसी अग्ने हव्यामनोषो देव भीते दानो अग्ने बृहतो दासहस्रणो धुरो न वाचां श्रुत्या वाचेद्या वा पृथिवी ब्रह्मणागधिस्वा अन्नशुक्रमुषसो विदिद्युदुः ी धानपुलसो राम्यानुस्वा अन्नदीदेतरुणेण भानुवा होत्राभिरग्निर्मनूडस्वध्वरो राजा विशामदी देश्चारु राज मे ये मानो अग्ने अमृतेषु पूर्यधीष्मीवाय बृहद्दीपेषु मानुषा धेनुर्विजरेषु कालभेत्मना सदिनम् पुरुपमिषणि भजमग्ने अर्वतावासुवीर्घम् ब्रह्मणावाचितले वाजनादि अस्माकम् व्युम्नमधिमजगृष्टिषु चास्वा सुजीतदुष्टरम् बोधिरहस्य प्रशंस्यो यस्मिन् सुजातादिभयम् तसूरजाः यमग्ने यज्ञमो भयन्ति वाजिनो नित्येतो तेजी जिवांसां स्वेदमे उभयासो जा जातवेदस्यामते स्तो अग्ने सूरजश्च शर्वाणि स्वो रागः पूर्वश्चन्द्रस्य भूय स प्रजापस्वपत्यस्य सद्धिनः ये स्तोद्रभ्योगो अग्रामश्वपसृजन्ति सूरयाः अस्मान् सदांश्च प्रहि शिवस्यादेव विदधे वीराः समिद्धो अग्निर्निहितः पृथिव्याम् प्रत्यम् विश्वाहानि भुवानान्यस्तात् होदा पापदः प्रतिवस्व मेधा देवो देवान्यजत्वग्निरर्हन् न राजम् दः प्रतिधामान्यञ्जन् तिस्रोदिव प्रतिमन्ना स्वर्जिः हृतप्रशामन सा हव्यमुन्दन्मूर्धन्यज्ञस्य समानम् तु देवान् ईलितो अग्ने मनसा नो अर्हन् देवान्यक्षिमानुषात् पूर्वो अद्य आवहबलुताम् शब्धो अच्युतमिन्द्रम् जलध्वम् देवबरिहर्वम् सुवीरम् स्वीर्णम् राजे सुभरं सुभरम् वेद्यस्याम् आक्तम् वरतमस्ति देदम् विश्वे देवादित्या यज्ञया सह निश्रायन्ता उर्भिजाहूयमाद्वारो देवीष्वप्रायणा नमोभिः यजस्वप्राधन्दामधुर्यावर्णम् पुरायशतम् साध्वपांसि सनताः न मुक्षिते वृषासारक्ताः भल्येः वरुण् दन्तम् तदम् दम्भयन्तीजे यज्ञस्य देशस्तु दुःखे पजस्वती ्याहोदारा प्रथमाविदृष्टाद विजयक्षरस्य भृजा वपुष्टारा देवान् व्यजन्ता समञ्जतो नाभाः पृथिव्या अधिसानोषु त्रिषु सरस्वती साधयम् दीधियम् नलिला देवी भारादिश्वदूर्तिः त्रिसुवो देवी स्वधया बर्हिरे तवच्छिद्रम् पाण्डुशरणम् निषद्य देवका ङ्गरूपः शुभरोपजोधाः सृष्टिवीरोयते देवकामः प्रजान्तष्टाविष्यजुना भीभस्मे रथा देवानामप्येपाधाः वनस्पतिरवसृजन्नुपस्थादग्निर्हविसूदयाजिप्रधीभिः प्रधा समक्तम् यज न प्रजानम् देवे ज्योदीव्यस्वभिहव्यम् ृदम् मे वीक्षे घृतमस्यो निर्धृ श्रुतो घृतम् वस्य धाम अनुश्वधमावाहमादयस्त स्वाहाघृतम् मृगभवक्षि हव्यम् उपेद सुद्योत्मानम् सुभृत्यम् विषामग्निमतींसुप्रजसम् इत्रयीपयोधिरा यो भूद्देवादेः भेजनेः जातवेदाः इमम् विधन्तो अपाम् सधस्ते द्विराजर्वो विक्ष्वायो एश्वाण्यभ्यस्तभूमा देवाना भग्निरतिर्जीरा स्वाह भग्निम् देवासोमानोविक्षप्रियम् दोहक्षेष्योनमित्रम् दो सदीदयतु सदीयोर्ज्ञा दक्षा यो योधास्वदे अस्य रण्वा स्वस्यैव पुष्टिः सन्दृष्टिरस्य हि यानस्य दक्षोः विजो बरिभ्रदोरलीडुजिह्वामत्यो न रथ्योः दोधबीदिवारादि आयन्मे अभ्रम् वनदः पनम् दोषिभ्यो नामी मीलवर्णम् स चित्रेण युजेरम् सुभासायुजुर्वायोजुभाभूत् आयोवनादादृशा नो नभादिवान् नवधारथ्ये वस्वानीत् कृष्णाध्वातपूरन्वस्तिके दद्यौरी वस्मयामानो नभोभिः स यो यस्तादभिदक्षा दुर्वीम् वसन्नयति स्वयुरगोपाः ग्निः सो चिष्पादसान् जुष्टन् द्रष्टव्याधिरः स्वदयन्न भूमेव पूर्वस्या वासो अधीतौ तृतीये विदधे मन्मशंसि अस्मे अग्ने संयद्वीरम् बृहन्तम् क्षुमन्तम् भाजम् स्वपत्यम् रन्दाः प्रजायथापदासो अग्ने गुहाष्यो सुवीरासोऽवादिभ्यो गृणते तद्वयोः होदान्वसूसे माजिनोयमम् आयस्मिन् सप्त रश्मयस्तदा यज्ञस्य नेतरि मनुष्यद्दैव्यामष्टमम् बोधा विस्वन्दरम् बति वे धन्वेमनवोचद्ब्रह्माणि मेरुदत् विश्वानि काव्यासक्रमे वाभवत् साकम् यशुचीनासुजप्रशास्ताद्दुर्गमा अस्य व्रता ध्रुवापजायुवालोरोहणे सा अस्य वन्ना वायुभोरे स्वधेन वाह उपेतसृभ्या परांसदा रोगम् ययो यदि मातुपस्वसा घृतम् भरन्त्यस्ती च तासा मध्वर्युरागतौ यवो दृष्टिव मोदते स्वस्वा यथाय देवहृता वृत्तिहृत्विजम् सोमम् यज्ञम् चादरम् वनेमाहाररिमा वयम् यथा विद्वाङ्गरङ्गरद्विश्वेभ्यो जनेभ्यः अयमग्ने त्वे अभियम् यज्ञम् च कृवा वयम् इमाम् मे अग्ने समिधमिमामूपसुतम् वनेः इमा कुश्रुधी गिराः अजाते अग्ने विधेमोर्जो न पादस्वाविष्टे ये या सूक्ते न सुजाता न्द्वा गीर्भिर्गीर्वा न स्युन्द्रविनोदः सपर्येवा सपर्यवाः सबोधिसूरिर्मघपापसुपतेवसु धावन् यो ध्या अस्मद्वेषांसि स नो वृष्टिम् दिवस्परिस नो वाजावनर्वाणम् सरःसहस्रिनीरिषाः ीलानायामस्य मेजमिष्ठदूतनो गिरा जिष्ठो धनागाहि अन्दर्यन्मोभयागवे दूतो जन्येव्या स विद्वाज विप्रयोजक्षी त्वारुस्मिन् सत् शिवर्हि श्रेष्ठम् यमिष्ठभारताङ्गे मङ्गमाभर पुरुःस्पृहम् रयम् मा नोहराजिरेजलदेवस्य मर्त्यस्य च तर्भिः बुधद्भिषः विश्वाः बुधत्वयाः भयम् धाराः बुधन्याः इव अतीगाहेव हिद्भृशाः सुजः पापगवन्द्योऽग्ने बृहद्विरोदरे सन्नाः असि भारताग्नेभृक्षभिः अष्टपदिभिराहूतः ब्रवन्नः सर्पिरा दिप्रनोः तामरेण्यः सहसस्पुत्रोद्भूतः भाजयन्नि वनोरथा योगाङ्गग्नेरुपस्तिः यजस्तमस्य मे नुराः यस्सो नीथो दधाजुरे दा जुर्यो जलयन्नम् हूतः यमु श्रजातमेष्वा दोढधिप्रदस्यते यस्य व्रतम् नमीयते आय स्वारुना चित्रो विभास्य अञ्जालो अजलैः रविवनुस्वराज्यापग्निमुक्तानी वाविधो विश्वाधिश्रयो दधे ग्नेरिन्दस्य व्योमस्य देवानाः भूतिभिर्वयम् अलक्षन्दस्य देवस्य विषयाः बबलन्यतः अपि वादजानाः ओ हरिः को भोराहो ऋषदनेविधानस्य ुलक्षाः अदब्धमृतप्रमनिर्वसिष्ठः सहस्रम् भरसुजीजिह्वो अग्निः त्वम् दूरस्तमो नः परस्तास्तम्भस्या वृषभप्रणेता अग्नेः लोकस्य नस्तनेः धनू विधेवादे परमे जन्मन्नग्ने स्तोमैरपाले सहस्ते यस्माद्योनेः त्वे हमी श्रीजुगुरे समिद्धे अग्ने यजस्व हमिषायीयाच्छुष्टितेष्णमभिग्रीणीहि राधाः त्वाम् ह्यजीरजिपदी रजीनाम् त्वम् शुक्लस्य वचसो मनोदा गुहजम् ते लक्षीजते मानस्य द्विवेदी बेजानस्य जरितार चरितारावग्रे गृधिपद्यं स्वभद्रस्य राजः सैनानीकेन स पितत्रो अस्मे जष्टा देवा राजा स्वस्ति अदब्धो गोपा पुनः परस्पाग्नेः जो होत्र अग्निः प्रथम पिते भेलस्पदे मनुढा यत्समिद्धः श्रियणानो अवृतो विजेतामर्वृजेऽन्यस्रवसरा अस्रभाजी श्रूयाग्निश्चित्र्यावारथम् बहवो रोहिता भोतारुषाः चक्रे विभृद्रः ीनायाञ्चिदक्तु नाम प्रचेताः जिहर्ण्यज्ञम् हविषाः खिलेन प्रयक्ष्यन्तम्भुवानानि विश्वादि वयसा भृगन्तम् यतिष्ठमन्मैलभसन्दृता त्यन्तम् जघन्यरक्षसामन साहजर्नाभिमृगे धन्वा आयद्भूराणः ज्ञेया भागम् सहसानोपरेणत्वादूता सोमनुवद्वदेव न भग्निम् जुह्वापजस्य मधुवृजम् धनसाजो भवीमि इमाहित्वा सुधीर्वामिन्द्रमारीषण्यस्याम ते दापनेवसूनामोर्जो बद्धयन्ति महीलिङ्ग्रजा अपि नःपरिष्टितासूरपूर्वीः अमत्यम् यद्दासम् मन्यमानवमाभिनदुःखैर्वावृधानः उक्तेष्विन्नुसूरजेणुरागन् स्तोमेष्विङ्गरुद्रयेषु च तुभ्ये देतायासु मन्द्रधानः प्रवाचरे जिस्रतेन शुभ्राः शुभ्रम्बम् बद्धयङ्गः शुभ्रं वज्रम् बाह्वोर्दधानाः शुभ्रस्त्वमिन्द्रमामृधानो हस्मेदाधीवसूर्येण सख्याः ृतम् क्षियन्तम् पुतो अपोद्याम्भ्वाम् स महनयिन् सूरवीर्येण स्तनुदा इन्द्रभूजान्युतस्तवामनुदानाकृतानि स्त वा वज्रम् वाक्को सन्तम् स्त वाहरिसूर्यस्य केतु हरेनुदायिन्द्रभाजयन् दालदश्चिदम् सारमस्वाशा विशमना भूमिरप्रधिष्ठारम् सर्वादश्चित् सृष्यर्वादः साध्य प्रायोच्छान् समाजभिर्वावसारो आक्राय दूरे बाले वाणीम् वर्धयम् द इन्द्रे जाम् धमनिम् प्रधन्ये इन्द्रो महाम् सिन्धु माजयानम् मायाविनम् वृत्रमस्फुरन्निः हरे येताम् रोदीभियानेकनिक्रदतो वृष्णो अस्य वज्रात् अरो रमेतृष्णो हस्य वज्रो मानुजन्मानो ढोल्यूर्वात् निमाजिनो दानवस्य मायापादयत्पपि वान्सुरस्य मन्दिनः सुदासाः श्रृणन्दस्ते कुक्षी वर्धयन् वित्थुतः पौर इन्द्रावायम्बन्दः अवश्यबो धीमहि प्रदस्तिम् सद्यस्ते राजो रावने इन्द्रयेत भूति आभस्य बभूर्जमम् वर्धयन्तः सुष्मिन्ता मम्यन् चाकला मतेर्वास्मेरवन्तम् राजिक्षयम् राजिमित्रमस्मे राजिदर्ध इन्द्रमारुदन्नः स जोषोजे च मन्दसानाप्रवाज्वान्त्यग्रहणीयम् न्द्रिपत्सम् अस्मान् सुमृत्सरुद्रान्त्रोक्ते स्नादो भक्तो दायिन्द्रवाजा मद्मन् उग्रेष्मिन्नसोरान्ददानस्तृकद्रिगेणुपाहितो महानिन्द्रदोधु वच्छ्वश्रूषु प्रेणा नो याहि हरिभ्याम् तस्य प्रीतिम् निष्वालवस्सु रजेन वृत्रमहाभीनद्दालो मौर्णमाभम् अपावृणो ज्योतिरार्यायनितौ यदस्सा दोनिन्द्र स्तरम्पृधार्ये नूरे अस्मभ्यन्तद्वाष्ट्रम् विश्वपमरम् साख्यस्य त्रुदाय अस्य सुभागस्य बन्दिनस्तृतस्यो अस्तः अवर्तयत्सूर्जोलचक्रम् विरद्बलमिन्द्रो अङ्गीरस्वान् ूनम् साधे प्रतिवरम् जरित्रे दूही यदि दक्षी रामभोनीः शिक्षा स्तोत्रभ्यो मादिधग्भगो नो मृगत्व प्रथमो मनस्वान् देवो देवान् कलूना पर्यभूषत् यस्य युक्ष्मात्रोदसी अभ्यासेतान् नृम्णस्य मह्नास च नास इन्द्राः यः पृथिवीम् यः पर्वधात्प्रकोपिधा अन्तरिक्षम् यो योर्जामस्तभ्रासृजनाथीन्द्राः यो हत्वा हिमलीरात्सर्पसिन्धो योगाबुदाजा च पधा बलस्य यो, यो अस्मानो नन्दरग्निम् जानसंरक्षमसृजनाथैन्द्राः दे ये देवा विश्वार्थ निजोदा सम्बन्धमधरङ्गुभागाः स्वघ्नीभयोजि गीवाङ्गणक्षमादर्जः पुष्टानि सजनाथीन्द्राः याम् स्मा पृच्छन्ति गुहदे गोरनुवाः अस्तीत्येन सो हर्यः पुष्टेर्विजिमामीनाथि स्वमैसज नाथ इन्द्राः ो रद्रस्यो दिदायः कृशस्य जो ब्रह्मणो नाधमानस्य जीवेः युक्तग्राम्नो यो विदासुधिप्रसु रसो वस्य स जनाजेन्द्राः यस्यास प्रतिथि यस्य गा भोजस्य ग्रामायस्य विश्वेरथा नजो अपान्नेता स जनाथ इन्द्राः यम् ग्रन्थाचीतम् यदि विश्वये ते परे वघुभयाः अमित्राः समानम् चिद्रजा मातस्थिवाम् सानाहवे ते सुजानास इन्द्राः यस्मान्न हृदयविजयम् ते जनाः सोऽयम् युध्यमाना अवासे हवन्ते यो विश्वस्य प्रतिमानम् प्रभूभयो अच्युदच्युत्सुजानास इन्द्राः यस्य स्वो मह्येनो दधानमन्यच्छर्वाः जघान यः श्रद्धनानुददातिश्रद्ध्यान्द्राः यस्यम्बारम्बर्व देणुक्षियन्तम् चत्वारिंश्रयाम् शरद्यङ्गविन्दत् ओजायमानम् जो अहिम् जघानदानुंसृजानंसृगान्राः यः सप्त रत्नवृणभस्तु विष्मानवाद्रेजः सप्त मे सप्तसिन्धून् योरौ हिलवस्तु हृद्वज्रा भर्यामारोहम् तम् सजनास इन्द्राः यास्मै पृथिवीन मे ते सुष्मादिभयम् ते यस्योः यो वज्रा भुर्यो वज्राहस्तसृजा यः स्वन्तमवन्तम् यस् यस्य मानभूदी यस्य ब्रह्मवर्धानम् यस्य सोमो यस्येदम् राधस्य जानाध इन्द्राः यस्वते अयम् त इन्द्र विश्वः प्रियासुवीरासो विदधमावादेव हृदर्जनित्रे तस्याः अपस्परि मक्षो आवि सत्या सुबधते तदा हना भवद्विभ्युषीपयोसोऽपि दुःखयम् धीमायम् तिपरिबिभ्रदेपयोः विश्वप्न्यायप्रभरम् तभोजालम् समानो अध्वाः प्रभताः मनुष्यदेयस्ताकः प्रथमम् सा सुख्याः अन्वेको वा वदति यद्गदादि तद्रूपानन्ददायेका यीयते विश्वादेकस्य विरुदस्ति दिक्षतेजस्ताक्रीणाः प्रथमम् सा सुख्याः प्रजाभ्यः पुष्टिम् विभजन्द आसने रजमेव पृष्ठम् प्रभवन्तमायतेक्रीणाः प्रथमम् सा सुख्याः देवं ी नाक्तोस्येदास्रुख्याः पुष्पिष्ट्याः लो नाहम् तवे लक्षाय च दाशवेर्जयन्तष्टमास्य बुदैवाद्य गुरुः सुः शतम् भागस्य दश सागमाद्य श्रुतौ यद्ध अलब्जौ सो नो नाव्यो अभव सुख्याः स्वे नो रोधना अस्य ओंश्यम् चतुरस्मेदधिरे घृतवेधनम् षडस्तभ्राविष्टिरः पञ्च संदृशपरि परो अभवः सा सुख्याः सुप्रवाचनन्दवीरवीर्या क्रूना प्रपयः सहस्वतोजा च कथते दुर्वीर यजमय्यायज सूर्यम् नीचा सन्तमुदनयः परामि श्रोणम् श्रवयन् सा सुख्याः अस्मभ्यम् तद्वासोदानाय राधः समद्वयस्व बहुदेव सव्यम् इन्द्रयश्चित्रम् श्रावस्यादेव विरधेरा ओ